अथ प्रथमाष्टके सप्तमप्रश्नप्रारम्भः एतर्ब्राह्मणान्येवन्द्रायशु नासीराय पुरोडाशन्द्वादशकपालम् गर्भवति संवत्सरो वा इन्द्राशुनासीरः संवत्सरेणैवास्माहन्नमवरुन्धे युर्वे वृष्टिता स एवास्मै वृष्टिम् प्रदापयति सूर्येण वाै वृष्टिं नियच्छति द्वादशीरं दक्षिणा समृद्धि देवासुरासंयत्तासन् ते, ते देवाग्निमकुर्वन् हमात्मानम् व्यकरिष्य इति स त्रेधात्मानम् व्यकुरुता अग्नम् तृतीयम् रत्रम् तृतीयम् अरुणम् तृतीयम् स ब्रवीद अर इदम् तृतीयमिति अहमिजीन्द्रा ब्रवीद सन्तसृजावः इति तौ समसृजेताम् स क्षिणा यद्वहिनी यद्गौ तेन होग्रे यद्धेनुः तेनैन्द्रि यत् श्रीयदीरान्ता तेन वारुणै समर्थ्ये प्रजापतिर्यज्ञमसृता ष्टगो <hopper> रक्षाकस्य जिगागम् रक्षाकम् सप्राणददाहोदि दिग्भ्य एव त्यजमानो रक्षाकम् सप्रणदते समोढगो रक्षः सन्दग्धगो रक्ष इत्याह रक्षाकस्यैव सन्दहति अग्नये रक्षोग्ने स्वाहेत्याह ेवणासमृद्ध्यै इन्द्रो वृत्रकरन्नालभताम् सोऽस्मादभिसमोद सन्धाको सन्दधाक्ष्यामि ्युष्टासीत् अनुजसौर्यैतस्मिन् लोके अमाम्भेन शिरवदवर्तयत तदेन मन्मवर्तता मित्रिविधि स एतानपामार्गानुजैरै सागस्य यत मार्गहोमो भवति रक्षतामहत्ये कोल्मुखेन वै रक्षसाम् स्वायामेव दिशि रक्षाकम् स्वकैरणे जहाजप्रधरे एतद्वै रक्षदामायतम् स्व एवायतमे रक्षाकम् सिहन्ति वर्णमयेन स्रुवेण जहोति ब्रह्म वै वर्णा ब्रह्मणैव रक्षाकम् सिहन्ति ेवस्य त्वा सवितप्रसव सवितप्रसोद एव रक्षागो जिहन्ति तदक्षिणा निरवत्ये पुरोडा छन्द्वादशकपालम् निर्भवति संवत्सरो वै धाता संवत्सरेणैवास्मै प्रजाः प्रजयतिर्मन्यते राते राकाले जनयति प्रजास्वेव प्रजादासु गा वाचम् ददाति सलोका भो दक्षिणासमृद्धि आज्ञा वैष्णवमेकादशकपालम् नर्वपति ऐन्द्रावैष्णवमेकादशकपालम् वैष्णवन्त्रिकपालम् वीर्यम् वा अग्निः वीर्यमिन्द्रः वीर्यम् विष्णुः प्रजा एव प्रजाता वीर्ये प्रतिष्ठापयति तस्मा प्रजा वीर्यावतीः ैष्णवसी अग्नि सोम्यमेकादशकपालम् निर्मपति इन्द्रासोम्यमेकादशकपालम् सौम्येन्द्रम् सोमो वैरेता वृद्धानामिन्द्रप्रदापयिता सोमदेवास्मेरेनाम् प्रजनयिता वृद्धानामिन्द्रप्रदापयिता सोमदेवास्मेरे प्रजनयति वृद्धामिन्द्रप्रयच्छति ौष्णस्यति इयम् वै भूषा तस्यामेव प्रतिष्ठति श्यामादक्षिणा समृद्ध्यै वै पुरुषामेत्यमुपगच्छति वैश्वानरम् द्वादशकपालम् निर्भवति संवत्सरो वानरः संवत्सरेणैवैकस्वदैति दक्षिणा पवित्रम् वैरात्येवैनम्गरादि हरदे ्राह्मणम् अनुदेकवै क्रियमाणे वरुणागृह्णादिर्वपदि वरुणपाशा देवेन अश्वदक्षिणा वरुणो हि देवतयाश्वस्य मृद्धि रत्न्यामेतानि हमीषि भवन्ति एते वै राष्ट्रस्य प्रदातारः एते पादातारः एव राष्ट्रस्य प्रदातारः ये पादातारः स्मे राष्ट्रम् राष्ट्रमेव भवति यत्समाहृत्यमेकेन वृन्दे भूयसीमेवादिषुमवृन्धे भूयिसौतिपत्यञ्जलम् ब्रह्मणो स्मे ब्रह्म्यतिमन्वारम्भ इति श्रीपृष्ठादक्षिणाशमध्यैकादशपालगोराजन्यस्य गृहे इन्द्रियमेवावरन्धे वृषभादक्षिणाथमध्यै आदिचरम् महिष्ये गृहे वादितिः तस्यामेव प्रतिष्ठति जेनवादायि गृहे भगवमेवास्मिन् दधादि निचित्तगर्भापृष्टो हि दक्षिणासमृद्धि नैरसञ्जलम् परिवृत्ति गृहे कृष्णानाम्रीहीणान्नखनभिन्नम् आत्मानमेव निरजन्यलवदे कृष्णाकोटादक्षिणासमृद्धि काक्ष्मेयमष्टाकपालको सेनान्यो गृहे सेनामेवाश्यति दक्षिणासमृद्धि वारुणन्दशकपालकौ सोदस्य गृहे वरुणसमेवन्धे अहारिरष्टो मारुतौ सप्तकपालङ्गामन्यो गृहे अन्नम् वै मरुतः अन्नमेवावृन्धे प्रश्निर्दक्षिणासमर्थ्यै सावित्रन्द्वादशकपालम् शत्रुर्गृहे प्रसोद्यैक्षिणासमर्थ्यै आश्वन्दन्दिकपालकसङ्ग्रहेतुर्गृहे अश्वनो वै देवानाम् विषजोः आभ्यामेवास्मै भेषजम् करोति समाद्यो दक्षिणासमर्थ्यै ओष्णम् चरम्भागदृभस्य गृहे अन्नम् वै भूषा अन्नमेवावरुन्धे श्यामो दक्षिणासमृद्धि रौद्रङ्गाविमक्षा भावस्य गृहे नर एव रुद्रम् नरवदे श्यामलौद्वारो दक्षिणासमृद्धि तादृशैतानि हविर्गंषि भवन्ति तादृशमासा संवत्सरः संवत्सरेणैवास्मै राष्ट्रमवरुन्धे राष्ट्रमेव भवति अन्नप्रतिनिर्गपेण आदृशोऽन्धेरन्न इन्द्रायुत्रा पुरोडाशमेकादशकवारम् आदिश एवावृन्दे राजा भोक्ता वृत्तम् वध्यादि आदिशमेवैरामाशास्ते मैत्रा वारहस्पत्यम् भवति श्वेतायैवधायै वारहस्पत्ये मैत्रमपि दधाति ब्रह्म चैवास्मै क्षत्रम् अथ ब्रह्मण्येव क्षत्रम् प्रतिष्ठापयतिवास्मै ब्रह्म स गश्यति अथ ब्रह्मण्येव क्षत्रमन्वारम्भयति स्वयम् कृति स्वयञ्जनम् महे स्वयङ्कृतयद्मः समभिजितस्याभिजित्यै तस्मात्राज्ञामरण्यमभिजितम् सैव श्वेताश्वेतवत्सा दक्षिणा समृद्धिः देवसभामेतानि हवीयं शिभवन्ति एतावन्धो वै देवानागोसभान्वयच्छन्ति तदेन गोतमन्ते पत्रेवणम् गृहपतेना गोतमते सोमोपहस्पदीनाम् रुद्रः पशूनाम् बृहस्पतिर्वाचाम् इन्द्रोज्येष्ठानाम् रुद्रः सत्यानाम् वरुणसम्मदीनाम् एतदेव सर्वम् भवति सवितात्वा प्रसमानागोतामिति हस्तम् गृह्णादिप्रो देवादेव सुहस्तेत्याह तथा यजुरेवेत महदेक्षत्राय महताधिपत्याय महते जाहराध्यायेत्याह आदिशमेवैतामाशा आस्ते हेजव भरता राजा सोमोऽस्माकम् ब्राह्मणाः राजेत्याह तस्मात् सोम राजा न येत्याह राज्यमेवास्मिन् प्रतिदधाति स्वाम्वावृन्दे शुचे मृत्तस्य वृत्त्या भौमेत्याह शुचिमेवैनम् वृत्यम् करोति मन्महिमाता तस्य नामेत्याह न एवम् सर्वे व्रातावरणस्याभूमन्नित्याह सर्वव्रातमेवेयम् करोति ैवैरातिमतारित्याहरादिमेवैनन्धारयतिः आर्यरैवास्मिन् विवृष्टेमानः प्रतिष्ठत्य अग्निसोमीयस्य एकादशकपालस्य देव सुभाञ्जाकृते समवद्यते देवताभिदेवेण उभयतः परिगृह्णाति विष्णुक्रमान् क्रमते विष्णुदेव भूत्येमान् लोकानभिजयति अर्थेतश्चैत आहुद्धीना निष्क्रियगृह्णाति अथो हविष्कृतानामेवाभिकृतानाम् गृह्णाति अहन्यैनाम् गृह्णाति एतावा अपाको राष्ट्रम् राष्ट्रमेवास्मै गृह्णाति अथो श्रियमेवेन अभिवहन्ति अवाम् प्रतिरसीत्याहनमेवाकः स्मेत्याह अन्नम् मे मरुतः अन्नमेवावृन्धे सूर्यवर्चितस्थेत्याह राक्षमेव वर्त्यस्य कः सूर्यत्वरितस्थेत्याह सत्यम् वा एतत् यद्वर्षति अनुसन्यदातपदिवर्षति सत्यानृते एवावरुन्धे नैलको सत्यानृते वृदे हि ग्रस्ता एवम् वेद माम् राष्ट्रमेव ब्रह्मत्यस्य कःत्याः राष्ट्रमेव वश्यकः शकरीश्चेत्याः पशोवैषकरीः पशुमेवावृन्धे विश्वभृतस्थेत्याः राष्ट्रमेव पयस्य कः जनवृतश्चेत्याः राष्ट्रमेवेन्द्रियाव्यगः अग्ने राष्ट्रमेव तेजस्विकः अपामौषधीनागमृतश्चेत्याः राष्ट्रमेव अपाम् पृष्ठम् यः सरस्वतीमेवृह्णाति षोडशकलोपीपुरुषः यावानेव पुरुषः स्मिन् वैर्यम् दधाति अनादृष्टाशीलते अन्तराहोदश्चयम् आज्ञनादि आवृत्यैः पवित्राभ्यामुत्मनम् दिव्यावृत्ते स्थलवान् भवति सदा हि दे पुरुषश्चेन्द्रियः आयुष्यैवेन्द्रिये प्रतिष्ठति अनिभृष्टमसीत्या पाचोबन्धरित्याह पाजाश्वेदन्ध्वजा इत्याह अभोजाश्वेतस्य दात्रमहीत्याेतदात्रम् शुक्रावशुक्रेणात्मनामेत्याह शुक्राश्यावः शुक्रगोहिरण्यम् चन्द्राश्चन्द्रेणेत्याह चन्द्रास्यावः चन्द्रगोहिरण्यम् अमृता अमृतेनेत्याह अमृताश्यावः अमृतगोहिरण्यम् साहा राजसो यायेत्याः राजसु याह्येनावत्पनादि समादोणाति परमेवावृन्धे एकया गृह्णाति एकदैव यमाने वीर्यम् ददाति क्षत्रस्योल्पमसि क्षत्रस्य योनिरसेदोष्णेषम् च प्रेच्छदयोः आत्मैकशतः आवानेव पुरुषः तस्मिन् वीर्यम् ददाति न ध्यासयति इन्द्रियमेवावरुन्धे ऊदम्बरमाशयति अन्नाद्यस्यावरुद्ध्यै शष्पाण्यासयति सुराबलिमेवेनम् करोति आविद एता भवन्ति आविदमेवैनम् गमयन्ति अग्निरेवेण गार्हपत्येनावति इन्द्र इन्द्रियेण पूषा पशुभिः निरवृणौ प्राणपानाभ्या इन्द्रवृत्राय तिरमुदयच्छत सदैवन्था विन्येत्या वा पृथिवे द्रज इत्या वा पृथिवेत सा आभ्यामेव प्रसोद इन्द्रवृत्राय व्रम्ब्राहृत आविन्नेत्या वा पृथिवे द्रत इति यदा आभ्यामेव प्रसोद इमानो वज्रम्भ्रादुव्याय प्रहरति आविन्ना देव्यति गर्विश्वरूपीत्याहम् वै देव्यतिगर्वरूपी अस्यामेव प्रतिष्ठति आविन्नायता वायणविही वैनगरा महते क्षत्राय महताधिपत्याय महते जानराध्यायेत्याहमेव स्य वासन् प्रत्युञ्जम्र्यन्त्यमन्वञ्जम् मा पादयत्याः इन्द्रावैशर्व्याःभ्यो मा पादयत्याः इभ्येवेम् पान्ति त्याह अपमिता देव इति दृष्टवा बाहोद्गुह्णाति इन्द्रियम् वै वीर्यम् दृष्टग इन्द्रियमेव वीर्यमपदृष्टादात्मम् धर्ते दिशाव्यास्थापयति दिशापुज्ये यदनुप्रक्रामे प्रक्रामदि अभिनिचोदयति मेवावृन्दे उदीचीमातिष्ठेत्याः अशोनेवावृन्दे घोर्मातिष्ठेत्याः स्वर्गमेव लोकमभिजेति अनोदृते स्वर्गस्य लोकस्य समष्टि मारु एष भवति अन्नमेव अन्नमेवावृन्धे प्रतिक्षिणः पशुभिरारण्याम् पशुवम् परिगृह्णादि तस्मात् ग्राम्यै पशुभिरारण्याम् पशुवरिगृहेताः अभ्यचित्य स राष्ट्रम् नाभवत् स एतानि वार्थान्यपश्यत् स्मै क्षत्रम् च समीचीनेव क्षत्रम् प्रतिष्ठापयति षट् पुरस्तादभिषेकस्य द्वादश सम्पद्यन्ते द्वादशमासाः संवत्सरः खल्वे देवानाम् भूः देवानामेव ब्रह्मद्यदोर्पदि तस्य गुणश्च नोपाव्यासो भवति यत्रा त्वै मृत्युजायते यत्र यत्रैव मृत्युद्यायते तत्र एवमवेद्यते अस्मात्राजसूयने जानः सर्वमा सर्वे ह्यस्य मृत्यो वेष्टा अस्मात्राजसूयो प्रत्यगेनमपि सारसृणते सोमस्य द्विषेव मे द्विषर्भूयादिशास्त्रणादिवावृन्धे मृत्योर्णः मृच्छाः ब्रुवः अमृतमहिरण्यम् अमृतमृत्यर्मा वाही अमृतमेव मृत्युरन्तर्धत्ते समानम् भवति सदा पुरुषः वेन्द्रिये प्रतिष्ठति नित्योन्मा बाही त्वपरिष्टादधिष्ठादन्दशोका इति क्लीबी नन्दशोका नैवावयजते अस्मात् निरस्तो निरस्यति आत्मानमेव न प्राणा आत्मनः पूर्वे विशच्या इत्याहो सोमराजावरणः देवासर्मसुष्टये ते देवाचकौसुमम् तान् ते ते प्राणकौसु तामित्याह प्राणानेवात्मनः पूर्वानभिषिञ्जति यद्ब्रूयाद् अग्ने स्वातेजसाभिषिञ्जामीति तेजस्यैव स्याद्मातुभवेत् सोमस्यत्वाद्युम्नेनाभिषिञ्जामीत्याह सौम्यो वै देवतया पुरुषः स्वयमैनम् देवतयाभिषिञ्जति पक्नेस्तेजसेत्याह तेज एवास्मिन् ददाति सूर्यस्य वरजसेत्याः वर्च एवास्मिन् ददाति इन्द्रस्येन्द्रियेणेत्याह इन्द्रियमेवास्मिन् ददाति निद्रावरुणयोर्वीर्येण वीर्यमेवास्मिन् ददाति पुनर्मो रसेत्याह एवास्मिन् ददाति क्षत्राणाम् क्षत्रपदसेत्याः क्षत्राणामेवैदम् क्षत्रपदि अधिकः जुहोति उच्छणभागो वैरुद्रः भागधेयेनैव रुद्रम् निरवदेते तदन्फलेत्याग्ने जहोति एषा वैरुद्रस्य दिक वायामेव दिशरुद्रम् निरवदेते यद्वास्यक्रयीपरम् नाम तेन वा एष हिनस्ति हिनस्ति तेनैवेनकं सह शमयति तस्मै हुतमसि हमेष्टमसीत्याहेवास्य मुख्यमवयजते प्रजापदेन गृहे कामयेतराष्ट्रमस्यै प्रजा स्यादिति राष्ट्रमेवास्यी प्रजा भवति अर्णमयेरभिषिञ्चति ब्रह्मवत् रथमेवास्मिन् विषिम् ददाति औदुम्बरेण राजन्यः ऊर्ज्यमेवास्मिन्नन्नाद्यम् ददाति पाश्वरवैष्यः विषमेवास्मिन्मुष्टिम् दधाति नयक्रोधे रजन्यः पित्रान्येवास्मै कल्पयति अथोप्रतिष्ठित्ये इन्द्रस्य वज्रदिवात्रघ्न इति रथमुपापहर्ति विजिद्धि मित्रावर्णयास्त्वा प्रशास्त्रोषायीत्याह ेन षट्सम्पद्यन्ते षट्वादवः द्विरेवेण कृष्णक्रमान् क्रमते कृष्णरेव भोद्वेमान् लोकानभिजेति क्षत्रियप्रदिहितः सोऽन्वारभते राष्ट्रमेव तुष्टभान्द्वारपदे इन्द्रियम् वै तुष्टमित्याह मरुद्भिरेव प्रसोदवती आप्तम् तदावत् आजन्यञ्जनादि अनाक्रान्त एवाक्रमते इव एष इन्द्रियेण वीर्येण कथ्यते योराजन्यञ्जिनादि समहमिन्द्रियेण वीर्येणेत्याह इन्द्रियमेव वीर्यमात्मम् दत्ते शिशूनाम् मन्युरशितमेव मे मन्युर्भूयादिवारा हि उपानः उपमुञ्चते वा एष्युः यद्वराह तेनैव पशूनाम् मन्युमात्मन् दत्ते अभि वा एकोसुषुपानम् कामयते तस्येश्वरेन्द्रियम् वीर्यमादादोः द्वारा हि उपानः उपमुञ्चते अस्या एवान्तद्धत्ते इन्द्रियस्य वीर्यस्याना नो मात्रे पृथिव्या इत्याहायु पुंसायि इयस्यायुरस्यायुर्मे देहीत्या आयुरेवात्मन्धत्ते पूर्गस्योजम् मे देहीत्या ऊर्जमेवात्मन्धत्तेवच्चो मयि देहेत्याह च एवात्मन्धत्ते एकथा ब्रह्मणो अपहरति एकथैव यजमानः आयुरोद्यम् वचत्वाजोतिष्ठत्यश्वा ततश्च दुःख्यो अवधिष्ठेताम् स्मानम् नोगमियाताम् सङ्गृहीत्रार्थ स्वर्गादेवेनकादन्तति ब्रह्मणैवति अतिच्छन्दसा दधाति अतिच्छन्दा वै सर्वाणि छन्दागुधि सर्वेऽपि देवेन छन्दभिरादधाति प्रश्म वा एषा छन्दसा ह्यजदिच्छन्दाः समानानां ना दधाति प्रस्मै वेदो समानानाम् करोति पित्राधिफलनासीत्या मैत्रम् वाहः वारणे रात्रिः अहोरात्राभ्यामेवेनमुपावहरति पुत्राधिफलनासीत्याह मैत्रो वैलक्षिणः वारणः सव्यः वैश्वदेव्यामिक्षाः स्वमेव नो भागदेयमुपावहरति दे त्याह विश्वदेव्यो वै प्रजा कृते क्षत्रस्य नासमास्तुनादिशयो निय शोनामासीदनामासीदेत्याः महात्वा हिगुंसेन्नामाहिगुंसेत्याः हि गोंसायि विशदादवृदौ प्रत्यास्वादाम्राद्याय सुप्रदरित्याः ेन को सुकृतम् सवितासि सत्यस वैत्याः सविता सत्यसम् ब्रह्मासेन्द्रोदि सत्यौ जैत्याः इन्द्रमेवेन को सत्यौजम् द्वगौराजन् ब्रह्मासि मित्रोऽसि वैत्याः ेन को सत्यधर्मेत्याह गायत्रीमेवैतेनाभिव्याहरति इन्द्रोऽत्याह पृष्ठभमेवैतेनाभिव्याहरति पित्रोऽसि सुैत्याह ेवेतेनाव्याहरति सत्यमेता देवतायाः सत्यमेता सत्यमेवावृन्दे वरुणोऽ सत्यसंवेत्यानाव्याहरति सत्यानृते वा अनुष्टुव सत्यानृते वरुणः सत्याहृते एवावृन्दे सत्यादृते वृतेष्टन्द्रस्य वज्रोष्ठम् प्रयच्छति वज्रोपैश्च भद्रेणैवास्मा अपरपरगो रन्ध्रति एव एते रथ्येयोभ्यो राजा भूतिजाक्षान् प्रयच्छति एते वै सर्वेयाः अपराजायम् क्रुते परमेषोदः श्रीयङ्गमेति सुश्लोकामङ्गला ौनस्येपमाक्षापयते पुरुणभाषा देवेन परश्यतम्भवति सदा यः पुरुषस्य आयुष्येवेन्द्रिये प्रतिष्ठतिकमालस्य वैश्वदेवी चामिक्षायाग्नये समवद्यति देवताभिरेवेण परिगृह्णाति लोकेषु प्रतिष्ठति इति प्रथमाष्टके सप्तमः प्रश्नः समाप्तः